अथ नव दशकम् भवत्प्रभावा विदुराहि हि गोपास्तरु प्रपातादिकमत्र गोष्ठे अहेतुमुत्पातगणम् विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः तत्रोपनन्दाभिध गोपवर्यो जगौ भवत् प्रेरणैव बृहद्वनम् तत् खलु नन्दमुख्या विधाय गोष्ठीन मथ क्षणेन त्वदन्वित त्वज्जननी निवेष्ट वधूभिः भवद्विनोदालपिताक्षराणि प्रपीयना ज्ञायत निरीक्ष्य वृन्दावनमीश नन्द प्रसूनकुन्द प्रमुख द्रुमौघम् अमोदथा शाद्वल सान्द्रलक्ष्म्या हरिन्मणि सुखासितेषु वनश्रियम् गोपकिशोरपाली विमिश्रितः मराळकूजाकृतनर्मलापाम् निरन्तर स्मेरसरोजवक्त्राम् कलिन्द कन्याम् समलोकयस्त्वम् मयूरके काशत लोभनीयम् मयूखमालाशबळम् मणीनाम् गो ततो गोपकुमारकैस्त्वम् समन्ततो यत्र वनान्तमागाः ततस्ततस्ताम् कुटिलामपश्यः कलिन्दजाम् रागवतीमिवैकाम् तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्स गण प्रचारे चरन् स रामोथ कुमारकैस्त्वम् समीर पाहिरोगात् इति नव दशकम्